ण्डे पञ्चमः प्रश्नः प्रारम्भः मा सदा शृङ्गा सति शृङ्गानि न जायन्ता इति कामे नदासां दशमासानुषण्णासन्नथ शृङ्गान् जायन्त उदतिष्ठन् नरास्मेत्तया सान्नाजायन्धतासंवत्सरमाप्त उततिष्ठन् नरास्मे या साञ्चाजायन्तया सा वैरुतिष्ठन्मरा स्मेत्रं वै संवत्सरो एवं वित्त्वांशसंवत्सरमुदस्मा ौमा सौ भक्त्वा चरभिं वा एते प्रप्लवन्ते समुद्रस्य वै समुद्रस्तस्यैतत्पार्य रात्रौ एवं भयञ्जनात्मा एवो धृजं गच्छन्ति पूर्वो रात्रौ सा उत्तरो पूर्व वा वित्तरप्राणत्पूर्वपानवुत्तरप्रकरो ज्योतिष्ठमा वैश्वानरोतिरात्र भवति ज्योतिरेव पुरस्तात् लोकस्यानुख्या चतुर्विवंशति संवत्सर प्रयुन्द एव संवत्सरे प्रतिष्ठन् जतस्य त्रीणि दशतानि षष्टिश्च श्रोत्री संवत्सरस्य रूपे आ ैव संवत्सरे प्रतिष्ठन्ति सुवर्गं लाकं यन्ति ब्रह्मवादनावसञ्जासे यन्तीति देवयानेन पथे तु प्रोयाच्छन् ेवयानब्रन्था गायत्री जगति गायत्यगति देवयानेनैव तत्पदायन्त्य समानगो सा देवलोको वै साम देव लोका देवनयन्त्यज्ञान्याच भवन्त्यमनुष्यलोको वाचो मनुष्यलोका देवान्येव लोकमप्यारोहन्तोयन्त्यभिवत्तो ब्रह्मसामम् भवति स्वर्गस्य लोकस्याभिवृत्त्या विश्वजिग्भवति विश्वस्य जित्मी मासिमादि पृष्ठान्युपयुञ्जे मासिमा आस्य मासिमा आस्येव मासाम् भो वा एतच्छमासदा शृङ्गासदे शृङ्गा निशा सन्देस्तासां दशमासा निषण्णासन्नताप्रवन्धतास्मात् तिष्ठा मास्मह्येन कामे न्यदामे प्रवन्धता भायावते वासा महा एवे दश मासौ संवत्सरतिष्ठा मे त्रिदासादशे मासशृङ्गानि प्रावृतं दश्रद्धया वा श्रद्धया वातास्तु श्च शृङ्गान्यशङ्हृदयाश्चोद्यमतासो तिष्ठन् रत्मादित्वादश श्री एवम् वेदपदेन खलु ृष्ठान्युपयन्ति मध्यनमुपयन्त्युत्तममुपयञ्जरा सुरं वै सा पराभ्याकृं वुशो न वरन्धरे समुद्रं वा एतेन ये संवत्सरमुपयन्ति यत्रे समुद्रस्य यस्तादृत्सरत्सर्वम् बृहत्पृथन्धराभ्या विद्वा प्रतिष्ठाम् गच्छन् सर्वेभ्योऽपि कामे एभ्यः सन्दर्भ हे तद्यजमानाः सर्वान् भवन्ति मनुष्यलोको वार्जा मनुष्यलोकादेवनयन्वलोका देवान्यमन्यं मनुष्यलोकं प्रत्यवरोहन्दायन्दीमीमै चिंशीयान् अवर्ध आम् स्यामेव प्रजतिष्ठञ्जन्योष्येदेवयः प्रजात्या वान्तरम् वेदशरात्रेण प्रजा प्रजः प्रजा असृजत यद्य रात्र भवति प्रजा एव तद्यजमानासृजम् वा उदङ्कशौत्वायः सत्रस्यर्ध्यमवाचयत्तशु रात्र यशु रात्र भवतसत्रस्य अधो यदेव गोर्वेष्वा श्रियामक्रियते तस्यैवैषा शान्तिः खात्सवै श्यामिन्द्रं वृन्दे संवेशाय उपवेशाय गायत्र्यात्तान्दाेश उपवेश्छन्दाभिदेवी विष्णोतिरिक्त एवातिरिक्तंक्ते नैवातिरिक्तमात्वाो वै यज्ञ दिष्टाप्रदिष्टामेवेन ज्ञमयन्तीतिसो न एतदेव हर्षेरिः मासाहि मास्य हर्षगञ्जमाौर्णमास्यामासाम्पाद्या हर्षयुञ्ज पौर्णमास्याहि मासाम्भस्य वै पौर्णः सिञ्चरि पराशि प्राणमस्मिन् स्यामासान् सम्पाद्या हर्षसंवत्सरा एव तत्राणन्दध्युवदेव सम्पाद्याः संवत्सरा एव तदानन्दधन् सत्रिणमुदनन्दनात्यमार्चन्दि पूर्णमा देवै देवानागुणमास्यामासान् सम्पाद्या हर्षयञ्जिदेवानामेव तद्येन यज्ञं प्रत्यवरोहं दिवि वा एतद्यज्ञं छिञ्जन्ति प्राजापुरिं भवति तेनैवयन्त्यं वा एतेषां भाजो देवता न्देधायधना देव समनपायो देवताः वृन्धतेष्काकबालान् प्रागस्वन एकादशकपालान् माध्यन्दिने सवने द्वादशकपालागस्तृतीयसवने छृन्दागस्वेवाप्त्वावृन्धदेवीश्वदेवं चरन्तीयसवने निर्पबन्दिवीश्वदेवं वैदृतीयसवनन्दे नैव तृतीय न्दे ब्रह्मवादनोष्टामित्याहरे मासो विषय ष्टागपालेन्द्रीन्द्रायशमेकादशपालं वैश्वदेवन्लमग्नेर्वमेवभागिनीयामेवभागिनी श्वेषां वै देवानामुर्भवतान् देवता एव तद्भागिने कुर्वन्द्वादशिभिर्वयन्द्रप्रायावृत्यम् दशिमालभन्दे यज्ञा वै यज्ञस्यानुभर्गायाभिवर्त इदर्श्यन्मासो ब्रह्म सामम् भवति ब्रह्म वा अभिवृत्त ब्रह्मणैव दत्सवर्त्यम् लोकमभिवर्तयन्द्वयन्द्रिप्रजनाभरपिता पुत्रेऽभ्यो यथा शिक्षा न अस्मिन् दयाम् जीवा ज्योतिर्जीमरे त्र्यमदहायता ब्रह्म सामम्भेपाद्योजा ज्योतिरमेव तल् ब्रह्मन्ध आयन्द्री देवानाम् वाग्मुदामिन्द्रियम् अवाक्रामुत्र क्रोशेना क्रोशश्च क्रोशत्र जात्वारम् कृत्वा गच्छन्ति श्लोकेन पुरस्तात्सस्तुवन्त्यनः श्लोकेन पश्चाद्यज्ञश्रीमान्तम् गत्वा श्लोकभाजो प्राणेश्वेन्द्रियन्दप्रदेशताभिरुक्ताय तस्मात् पुरुषः सर्वाण्यन्यानुसेष्णा एव पञ्चदशकमलन्धरं भवतीन्द्रियमेवावृन्धरे सप्तदशं बृहदन्नाद्यस्यायुवेन जायन्त एकविवंशं भद्रन्द्रुपदात्यै पत्नयन्द्रिमिधनत्वाय प्रजापुर्य प्रजा असृजदशाकामय महागङ्गा चम्बरी यामिदका सागौ राजनेय नैमरात्सिमः कृतराजस्य राज रत्नयुत्रायं भवदृजानां एवदत्यजनानां राज्यं परेन्द्रपञ्चलवंशं भवदृजावदे राप्ते पञ्चवर्ष छंदस्तुवन्ते एव लोकामेवाभिनेयनि विराजीनां मनुष्यलोकमेवाभिनेयनि मृदशतसंबद्धं देषाक्षरागिरान्निं विराट्। देिवान्नात् तेवर्द्धदेवं तथा विन्युद्धस्तुवन्घं च क्षेवप्रदृतं देगेगयास्तु दयासमायन्त दिग््य एवान्नार्थ्यगो संहृ एवान्नार्थिको संहृत्यरेत्पातारोहतिैव पृष्ठकोरोहन्ति गोच्चस्यैव पृष्टमङ्गच्छन्त्ये तावन्तो वैदेव यथा छन्दता आक्रमणमेव दस्यमानाः प्रोदे तु वर्गस्य लोकस्य समष्ट्यै एवं प्रजा सामोच्य मातृक्षोदकास्तागुं समाजान्या साधं कुर्वता एवमेवं ज्याजन्धाभिजत्य सर्वासां वाचामवरुद्ध्या आद्रे जन्मन्व्यायच्च ृष वा एते देव तस्यैव मिथुनान्नयन्ति मावभिन्द्यपात्मानमेवैषामभिन्नन्त्यमापरात्स्येर्मातुम् प्रत्ययैषाम् पात्मानवभिन्दन्त्यमाज्यालीयम् परिणृत्यन्दि पदोद्धते ऋतम्बङ्गायम् च पी देवानाम् परमवन्नाद्यम् परममेवान्नाद्यमवर्धते पदो निर्ध्य महीयामेवैषे जिवे स्वाहाय स्वाहा जिवे स्वाहा संभ्रवषदे स्वाहा संभ्रवमाणाय स्वाहा सम्भृदाय स्वाहा मेघायिषदे स्वाहा मेघायुधे स्वाहा मेघिताय स्वाहा मेघाय स्वाहा निहाराय स्वाहा निहारायै स्वाहा राजदाय स्वाहा पुतला गायै स्वाहा विद्योधिष्यदे स्वाहा विद्योजमानाय स्वाहा संविद्योजमानाय स्वाहास्तनयिष्यदे स्वाहानयदे स्वाहा कृतनयदे स्वाहा परिषिष्यदे स्वाहा वर्षदे स्वाहा विवर्षते स्वाहा परिवर्षते स्वाहा संवर्षदे स्वाहा विवर्षते स्वाहा शीटायिष्यते स्वाहा शीघ्रायते स्वाहा शीघ्रताय स्वाहाष्यते स्वाहा पृष्टदे स्वाहा परिपृष्टदे स्वाहोद्गृहीषते स्वाहो गृह्णते स्वाहोद्गृहीताय स्वाहा विप्लवश्यते स्वाहा विप्लवानाय स्वाहा विप्लुदाय स्वाहा दप्स्यते स्वाहा तपदे स्वाहो विलमादपदे स्वाहा स्वाहा यदुभ्य स्वाहा स्वाहाङ्गिरोः वेदेहास्वाहा नारा सुन्दे विस्वाहा सर्वस्मै स्वाहा स्वाहा नन्दका स्वाहा प्राणिने स्वाहा प्राणाय स्वाहा मुखवदे स्वाहा मुखाय स्वाहा नाशिगवदे स्वाहा नासिका स्वाहा शृण्वदे स्वाहा रक्षिका स्वाहा कर्मिणे स्वाहा कर्मकाय स्वाहा शीरुशृण्मदे स्वाहा शीरुका स्वाहा वद्वदे स्वाहा बालकाय स्वाहा प्राणदे स्वाहा स्वाहा वददे स्वाहा वददे स्वाहा पश्यदे स्वाहा पश्यदे स्वाहा शृण्वदे स्वाहा शृण्व स्वाहा मनस्विदे स्वाहा रे दश्मने स्वाहा रे दृष्वा स्वाहा प्रजाभ्यस्वाहा प्रजनना स्वाहा लोमवृदे स्वाहा लोमकाय स्वाहा स्वाहा त्वक्का स्वाहा चर्मदे स्वाहा शर्मकाय स्वाहा लोहितमुदे स्वाहा कृष्णस्वायन तस्य यज्ञस्यर्थेमसन्नत्यायुषे त्वा प्राणाय त्वा प्राणाय त्वा ध्यानाय त्वाभ्युष्टयि त्वा रङ्ग्यराधते त्वा घोषाय त्वाघोषाय त्वाराघोषाय त्वा प्रतिशुद्ध्य अन्ये गायत्रायत्रवदे रान्दराय वा सन्दायाश्चाकपाल इन्द्रायत्रैष्टभाय पञ्चदशाय वार्हताय क्रेष्माय विश्वेभ्यो देवेभ्यो जागते दे वैराजाभ्यागुश रथाभ्यां वयस्या बृहस्पतये पान्ता यत्र ऋणवायशाय हैमन्दिकाय चरस्वभित्र आदक्षे त्रिपुंशाय रैवतायश्च ईशिरा इद्वादश कपालोदित्ये विष्णुमत्ये जलये वैश्वानरा इद्वादशकपालो न मत्ये जलः एककपालः यो वा अग्नावग् क्रियते जातयोद्वोषान्नागधेयेनैवनामृतेव इमाने देवाभिस्वामयी पृष्ठैश्च इत्या हृदयदेवानि हविवा इन्द्रं देवा अयाजयन् तस्मादिन्द्र एतयामनं मनुष्यास्तस्मा इन्द्र देवानां मनुष्याणामे यः प्राणतो निषतो मे त्वै चैत्रा बभूव एषे अस्य द्विपदस्य कस्मै देवाय हविषा विधेमी त्वप्रजापदये त्वादुष्टम् गृह्णामि तस्य देत्योर्महिमानक्षत्राणि तस्मै त्वामयिमे प्रजापतये स्वाहायस्य विश्व उपासते प्रतिशन्यस्य देवाः यामृदयस्य मृत्यः कस्मै देवाय हविषामि धेमाजावतये त्वादिष्टम् गृह्णामृतस्य देव पृथिवीमहिमौषधयो वनस्वदयो रूपमग्नस्य प्रजापतये स्वाहा आ ब्रह्मन् ब्राह्मणो ब्रह्म त्रिसी जायतामास्मिन् राष्ट्रैराजन्यैशव्यश्रूरो महारतो जायतानाथस्य धैर्योषा जिष्णोष्ठा सभे यो युवा श्रीयमानस्य वीरो जायतामेरिकामेन प्रत्यन्यो वर्जुतफलिन्यो नवौषधेः पच्छन्तान्योगक्षेमो नः कल्पदा आक्राणवादी पृथिवीपत्नीयुजमगतवाद्यर्वाक्रानुवाद्यन्तरिक्षं वायुं मृतवाद्युजमगतवाद्यत्वारभे स्वस्ति मासंस्थे वाजुलिङ्गत्वारभे स्वस्ति मासं पारय प्राणदृगतिप्राणे दृग्ंहाव्यानदृगदिव्यारम्भे दृग्म्भापानदृगस्य पारम्य चक्षु धि चक्षुर्मधे हिश्रात्रिश्रा त्रयिधे क्षमन्तरिक्षगोसु पापमानोरात्रे पञ्चदश नंश नृप्तां वत्सरः ज्ञेयोऽष्टाकपालसौम्यश्चिरसावित्रोऽष्टाकपालः कृष्णश्चिरु रौद्रश्चरुलग्नये वैश्वानरायद्वादशकपालोलाखने लघुनागच्छये गुहोम चेष्टाकपालसौर्यम्भयो वायव्य आद्यभागः ग्नये हो हो गो होम चेष्टाकपाल इन्द्रायागो होम च एकादशकपालो मित्रा सप्तकपालो विश्वेभ्यो एनोमुभ्यो त्वादशकपालो नमत्ये जलग्नये वैश्वानराय त्वादशकपालोऽभ्य वा पृथिवीभ्यामगो होमभ्यान्धकपालः ृथिव्ये समनमध्यथायभेक्षत्रे वरुणाय समनुमध्यसात्राय समनमध्यथा ब्रह्मक्षत्रेण राध्ये समनमध्यथा राजा विशारथाय स ्रा सन्नदयः सन्नवन्दो ये देवन्थाः सविदः पूर्यासो रेण भो विददान्तरिक्षे तेभ्यन्नाद्य स्वीये भीरक्षा च माधिकदेव ब्रूहि ग्नये पृथिवीक्षते लोकस्पृते लोकमस्मै यजमानायुधे हि नमो वायुवेक्षिक्षते लोकस्पृते लोकमस्मै यजमानायुधे हि नमस्सूर्यायुधि भीक्षते लोकस्पृते लोकमस्मै यजमानायुधेहि यो वाश्वस्य मेध्यस्वशिरो वेदीर्षण्वान्येध्यो भवत्युषा वाश्वस्य मेध्यस्विशिरस्व श्रीक्षुर्वादप्राणश्चन्द्रमाश्रन्दिषप्पादा अवान्धरदिशात्रे निर्वाणि संवत्सर आत्मा रश्मय क्लेश नक्षत्राणि रूपं तारकास्थान ओमाकंसान्योषत यो लोमानि वनस्पत यो बालानुरो समुद्रमुदरमन् ुत्या वा पृथिवी आण्डौग्रावासेवस्वभोरेद्यम् लभ्यते तद्विद्योर्वाश्वस्य रात्रमा पश्चादनुजागत एतौ वै महिमानावश्वमभिधः सम्भोबुधर्हयोश्वमनुष्याहान् समुद्रो वा निःसमुद्रः कृष्णयजुर्वेदतैतरीयसंहितायाम् सप्तमकाण्डे पञ्चमः प्रश्नः समाप्तः कृष्णयजुर्वेदतैतरीयसंहितश्च समाप्तः